दृष्ट्वाभ्युपेतमथ दैत्यपतिम् पुरस्तात् सङ्ग्रामकेलिकुतुकेन घनप्रमोदम् योद्धुम् मदेन बाणान्धकारितदिगम्बरगर्भमेत्य देव द्विषाम् परिवृढो विकटम् विहस्य बाणावलीभिरमरान्विकटान् ववर्ष शैलानिव प्रवरवारिधरो गरिष्ठान् अद्भिः पराभिरथगाढमनारताभिः जम्भद्विषत्प्रभृतिदिक्पतिचापमुक्ता बाणासिता दनुजनायकबाणसङ्घान् अह्नाय तार्क्ष्यनिवहा इव नागपूगान। सद्यो विचिच्युदुरलम् कणशोरणान्ते तान्प्रज्वलत्फलमुखैर्विषमैः सुरारि नामाङ्कितैः पिहितदिग्गनान्तरालैः आच्छादितस्तृणचयानिव हव्यवाहः चिच्छेदसोऽपि सुरसैन्यशरान् शरौघैः दैत्येश्वरो ज्वलितरोषविशेषभीमः सद्यो मुमोच युधियान्विशिखान्सहेलः ते प्रापुरुद्भटभुजङ्गमभीमभावम् गाढम् बबन्धुरपितांस्त्रिदशेन्द्रमुख्यान् ते नागपाशविशिखैरसुरेण बद्धाः श्वासानिलाकुलमुखा विमुखारणस्य दिङ्नायका बलरिपुप् प्रमुखास्मरारिसूनोः समीपमगमम् विपदन्तहेतोः दृष्टिप्रपातवशतोऽपि पुरारिसूनोः ते नागपाशघनबन्धविपत्तिदुःखात् इन्द्रादयो मुमुचिरे स्वयमस्य सेवाम् व्यधुर्निकटमेत्यमहाजिगीषोः उद्दीप्तकोपदहनोऽथ सुरेन्द्रशत्रुः अह्नायसारथिमवोचतचण्डबाहुः बद्धा मया सुरपतिप्रमुखाः प्रसह्य बालस्य दूर्जटिसुतस्य निरीक्षणेन मुक्ता बभूवुरधुना तदिमान्विहाय कर्तास्म्यमुम् समरभूमिपशूपहारम् तत्स्यन्दनम् सपदि वाहय शम्भुसूनुम् द्रष्टास्मि दर्पितभुजाबलमाहवाय तत्स्यन्दनः सपदि सारथिसम्प्रणुन्नः प्रक्षुब्धवारिधरधीरगभीरघोषः चण्डश्चचाल दलिताखिलशत्रुसैन्यमांसास्थिशोणितविपङ्क विलुप्तचक्रः दृष्ट्वा रथम् प्रलयवातचलद्गिरिन्द्र कल्पम् दलद्बलविरावविशेषरौद्रम् अभ्यागतं सुररिपोः सुरराजसैन्यं। शोभं जगाम परमम् भजवेपमानम् प्रक्षुभ्यमाणमवलोक्यदिगीशसैन्यम् शम्भोः सुतम् कलहकेलिकुतूहलोत्कम् उद्दामदोः कलितकार्मुकदण्डचण्डः प्रोवाच वाचमुपगम्य स कार्त्तिकेयम् रे शम्भुतापसशिशो बत मुञ्च मुञ्च दोर्दर्पमत्र विरमत्रिदिवेन्द्रकार्यात् शस्त्रैः किमत्र भवतोऽनुचितैरतीव बालत्वकोमलभुजातुलभारभूतैः एवम् त्वमेव तनयोऽसि गिरीशगौर्योः किंव्यासि कालविषयम् विषमैः शरैर्मे सङ्ग्रामतोपसरजीवपितुर्जनन्याः तूर्णं प्रविश्य वरमङ्कतलम् विधेहि सम्यक् स्वयम् किल विमृश्य गिरीशपुत्र जम्भद्विषोऽस्य जहिः प्रतिपक्षमाशु एष पयसि मज्जति दुर्विगाह्ये पाषाणनौरिव निमज्जयते पुरा त्वाम् निशम्यवचनम् युधितारकस्य कम्प्राधरो विकचकोकनदारुणाक्षः क्षोभास्त्रिलोचनसुतो धरुणि धनुरीक्षमाणः प्रोवाच वाचमुचिताम् दैत्याधिराज भवता यदवादिगर्वात् तत्सर्वमप्युचितमेव तवैव किन्तु द्रष्टास्मिते प्रवरबाहुबलम् वरिष्ठम् शस्त्रम् गृहाण कुरु कार्मुकमाततज्यम् त्रिपुरारिपुत्रम् दैत्यः क्रुधौष्ठमधरम् किल निर्विभिद्य युद्धार्थमुद्भटभुजाबलदर्पितोऽसि बाणान् सहस्व मम सादितशत्रुपृष्ठान् दुःप्रेक्षणीयमरिभिः धनुरातज्यम् सद्यो विधाय विषमान्विशिखान्यधत्त सक्रोधभीमभुजगेन्द्रनिभं स्वचापम् चण्डम् प्रपञ्चयति जैत्रशरैः कुमारे कर्णान्तमेत्यदितिजेन विकृष्यमाणम् कोदन्दमेतदभितः सुषुवेशरौघान् व्योमाङ्गणे लिपिकरान्किरणप्ररोहैः सान्द्रैरशेषककुभाम् पलितं करिष्णून् बाणैः सुरारिधनुषः प्रसृतैरनन्तैः निर्घोषभीषितभटो लसदम् शुजालैः अन्धीकृताखिलसुरेश्वरसैन्य ईशसूनुः कुतोऽपि विषयम् न जगामदृष्टेः देवेन मन्मथरिपोस्तनयेन गाढम् आकर्णकृष्टमभितो धनुरातज्यम् बाणानसूतनिशितान् युधियान्सुजैत्रान् तैः सायका बिभिदिरे सहसा सुरारेः रेजे सुरारिशरदुर्दिनके निरस्ते सद्यस्तराम् निखिलखेचरखेदहेतौ देवः प्रभा प्रभुरिव स्मरशत्रुसूनुः प्रद्योतनः सुघनदुर्धरधामधामा तत्राथ दुस्सहतरं समरेतरस्वी धामाधिकं दधति धीरतरम् कुमारे मायामयम् समरमाशु महासुरेन्द्रो मायाप्रचारचतुरो रचयाम् चकार अह्नाय कोपकलुषो विकतम् विहस्य व्यर्थाम् समर्थ्य वरशस्त्रयुधम् कुमारे दुर्ललितः सहेलम् वायव्यमस्त्रमसुरो धनुषिन्यधत्त सन्धानमात्रमपि यस्य युगान्तकालभूतभ्रमम् परुषभीषणघोरघोषः उद्धूतधूलिपटलैः पिहिताम्बराशः प्रच्छन्नचण्डकिरणो व्यसरत्समीरः कुन्दोज्वलानि सकलातपवारणानि धूतानि तेन मरुतासुरसैनिकानाम् यमान कलहं सकुलोपमानी उड्डीयमानकलहंसकुलोपमानि मलिने नभसि प्रसस्रुः विध्वस्यतेन सुरसैन्यमहापताकाः नीतानभस्थलमलम् नवमल्लिकाभाः स्वर्गापगाजलमहौघसहस्रलीलाम् व्यातेनिरेद्दिवि सिताम्बरकैतवेना धूतानि तेन सुरसैन्यमहागजानाम् सद्यः शतानि विधुराणि दलत्कुथानि पेतुः क्षितौ कुपितवासववज्रलून् पक्षस्य भूधरकुलस्य तुलाम् वहन्ती तास्ताः खरेण मरुता रथराजयोऽपि दोधूयमाननिपतिष्णुतुरङ्गमाश्च विस्रस्तसारथिकुलप्रवराः समन्तात् व्यावृत्यपेतुरवनौ सुरवाहिनीनाम् हित्वायुधानि सुरसैन्यतुरङ्गवाहाः वातेन तेन, तेन विधुराः सुरसैन्यमध्ये मनवाप्य निपेतुरुर्व्याम् स्वीयेषु वाहनवरेषु पतच्छुसत्सु तेनाहतास्त्रिदशसैन्यपदातयोऽपि स्रस्तायुधाः सुविधुराः परुषम् रसन्तः वात्याविवर्तदलवद्भ्रममेत्यदूरम् निःपेतुरम्बरतलात् वसुधातलेऽस्मिन् इत्थम् विलोक्य सुरसैन्यमथो अशेषम् दैत्येश्वरेण विधुरीकृतमस्त्रयोगात् स्वर्लोकनाथकमलाकुशलैकहेतुः दिव्यं प्रभावमतनो स देवः तेनोज्झितम् सकलमेव सुरेन्द्रसैन्यम् स्वास्थ्यं प्रपद्य पुनरेव युधिप्रवृत्तम् दृष्ट्वा सृजद्दहनदैवतमस्त्रमिद्धम् उद्दीप्तकोपदहनः सहसा सुरारिः वर्षातिकालजलदद्युतयो नभोऽते गाढान्धकारितदिशो घनधूमसङ्घाः सत्यः प्रसश्रुरसितोत्पलदामभासो दृग्गोचरत्वमखिलम् न हि सन्नयन्तः दिक्च चक्रवालगिलनैः मलिनैस्तमोभिः लिप्तम् नभःस्थलमलम् घनवृन्दसान्द्रैः धूमैर्विलोक्य मुदिताः खलु राजहंसाः गन्तुम् सरः वन्निरतुलह जज्वाल वह्निरतुलः सुरसैनिकेषु कल्पान्तकालदहनप्रतिमः समन्तात् आशामुखानि विमलान्यखिलानि कीलाजालैरलम् कपिलयन् सकलम् न भोपी उज्जागरस्य दहनस्य निरर्गलस्य ज्वालावलीभिरतुलाभिरनारताभिः कीर्णम् पयोदनिवहैरिव धूमसङ्घैः व्योमाभ्यलक्ष्यतकुलैस्तडितामिवोच्चैः गाढाद्भयात् वियति विद्रुतखेचरेण दीप्तेन तेन दहनेन सुदुःसहेन दन्दह्यमानमखिलम् सुरराजसैन्यम् अत्याकुलम् शिवसुतस्य समीपमाप इत्यग्निना घनतरेण ततोऽभिभूतम् तद्देव सैन्यमखिलम् विकलम् विलोक्य सस्मेरवक्त्रकमलोऽन्धकशत्रुसूनुः बाणासनेन समधत्त स वारुणास्त्रम् घोरान्धकारनिकरप्रतिमो युगान्त कालानलप्रबलधूमनिभो नभोऽन्ते गर्जारवैर्विघटयन्नवनीधराणाम् श्रृङ्गाणि मेघनिवहो घनमुज्जगाम विद्युल्लता वियति वारिदवृन्दमध्ये गंभीर भीषण कपिशी कृताशा, घोरा युगांत चलितस्य भयंकराथ, कालस्य युगाचल काल्सरस चमचकार कादंबिनी विरुचे विषकंठि का उत्ल कालरजनीजलवी व्योमुच्च्चक अचिपरीदीताृष्टिछदा विषमघोष विभीषणा चोमनस्तल पिदता ककुभा मुखाने गर्जारवित तुदता मना अम्भोभृताम् अतितराम् अनणीयसीभिः धारावलीभिरभितो ववृषे समूहैः घोरान्धकारपटलैः पिहिताम्बराणाम् गम्भीरगर्जनरवैः व्यथितासुराणाम् वृष्ट्या तया जलमुचाम् वरुणास्त्रजानाम् विश्वोदरम्भरिरपि प्रशशामवह्निः दैत्योऽपि रोषकलुषो निशितैः क्षुरप्रैः आकर्णकृष्टधनुरुत्पतितैः स भीमैः समस्त जगान विद्रुतसमस्तसुरेन्द्रसैन्यो गाढम् जघानमकरध्वजशत्रुसूनुम् देवोऽपि दैत्यविशिखप्रकरम् सचापम् बाणैश्च कर्त कणशो रणकेलिकारी योगीव योगविधिशुष्कमना यमाद्यैः सांसारिकम् विषयसङ्घममोघवीर्यम् भ्रूभङ्गभीषणमुखोऽसुरचक्रवर्ती सन्दिप्तकोपदहनोऽथ रथं विहाय क्रीडत् कराल करवाल करो करालकरवालकरोऽसुरेन्द्रः तम्पत्यधावदभितः त्रिपुरारिसूनुम् अभ्यापतन्तमसुराधिपमीशपुत्रः दुर्वारबाहुविभवम् सुरसैनिकैस्तम् दृष्ट्वा युगान्तदहनप्रतिमाम् मुमोच शक्तिम् प्रमोदविकसद्वदनारविन्दः उद्योतिपाम्बरदिगन्तरमंशुजालैः शक्तिः पपात हृदि तस्य महासुरस्य हर्षाश्रुभिः शोकोष्णबाष्पसलिलैः सह दानवानाम् शक्त्या हृतासुमसुरेश्वरमापतन्तम् कल्पान्तवातहतभिन्नमिवाद्रिशृङ्गम् दृष्ट्वा प्ररुढपुलकाञ्चितचारुदेहाः देवाः प्रमोदमगमन् त्रिदशेन्द्रमुख्याः यत्रापतत्सदनुजाधिपतिः परासुः संवर्तकालनिपतच्छिखरीन्द्रतुल्यः तत्रा दधात्फणिपतिर्धरणीम् फणाभिः तद्भूरिभारविधुराभिरधो व्रजन्तीम् अपगा सौरभ्य सेव्यमाना। कल्पद्रुम सलिकरणी सवंता सौरभ्यलुब्धमधुपलिव्यम कलपद्रुम प्रसववृष्टिभस् शो सुत शिदशादिशत्रो पुलभर विभिन्न वाणा भुजविभवं बहु तारकस्य शत्रोः सकलसुरगणा महेन्द्रमुख्याः प्रमदमुखच्छविसम्पदोऽभ्यनन्दन् इति विषमशरारेः सूनुना जिष्णुनाजौ त्रिभुवनवरशल्ये प्रोद्धृते दानवेन्द्रे बलरिपुरथ नाकस्याधिपत्यम् प्रपद्य व्यजयत सुरचूडारत्नकृष्टाग्रपादः